हरि ओं सीता श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चतुर्दशाधिकशतम स्वर्गः श्रीरामस्याज्ञया विभीषणेन सीताया प्रथमे परायणम् सीता कृतृकं प्रियतममुखचन्द्रस्य च तम् उवाच महाप्राज्ञ सोऽभि रामं कमलपद्राक्षम् परं सर्वः धनुष्मताम् यन्मेऽयमारम्भ कर्मणां यः फलोदयः तं देवीं शोकसन्तप्ताम् द्रष्टुमर्हसि मैथिलीम् सा हि शोकसमाविष्टा बाष्पर्याकुलेक्षण मैथिली विजयं श्रुत्वा द्रष्टुम् त्वामभिकाङ्क्षति पूर्वकात् प्रत्या चाहम् उक्तो विश्वस्तया तया द्रष्टुम् इच्छामि भर्तारम् इति पर्याकुलेक्षणा एवमुक्तो हनुमता रामो धर्मभृताम्बरः अगच्छत् स साध्यानम् ईषद् भाष्परिप्लुतः पर स दीर्घ मणिमभि निश्वस्य जगतिम् अवलोकयन् उवाच मेघ सङ्काशम् विभीषणमुपस्थितम् दिव्याङ्गरागाम् वैदेहिं। दिव्या भरेण भूषिताम् इह सीताम् शिरस्नाताम् उपस्थापयमाचरम् एवम् रामेण परमाणो विभीषणः प्रविशान्तः पुरम् सीताम् त्रिभीर स्वाभीरचोदयत् ततः सीताम् महाभागाम् दृष्टो वाच विभीषण मुर्नि बद्धाञ्जलिः श्रीमान् विनीतो राक्षसेश्वरः दिव्याङ्गरागः वैदेहि दिव्याः भरणभूषितः यानं मारुह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति एवं भुक्तास्तु वैदेही पत्युवाच विभीषणम् अस्माता द्रष्टुमिच्छामि भर्तारं राक्षसेश्वर तस्य तद्वचनं श्रुत्वा पत्युवाच विभीषण ये तथा कर्मस तस्वचन तस शुवा मैथीपतिदेवता वस्त्र भक्तिया वृता साधवी तथेति प्रत्यषत तथी तम शिस्ना प्रति कर्मण भरणोपेताम् महारहाम्बरहारिणीम् आरोप्य शिबिकां दीप्ताम् पराध्याम्बर संवृताम् रक्षोभि बहुभिगुप्ताम् भी अजहर विभीषणः सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितं प्रणतश्च प्रवृत्तश्च प्राप्तां परिसृत्य रक्षो व्रीच रोषितां रोषं हर्षं च दैन्यं च राघवे शत्र या न गतां सीतां स विमर्शं विचारयन् विभीषणम् इदम् वाक्यम् अरुष्टो राघवो ब्रवीत् राक्षसाधिपते सौम्य नित्यं मद्विजये रतः वैदेहि सन्निकर्षं वेत् क्षिप्तम् तमभिगच्छतु तस्य तद्वचनं श्रुत्वा रघवस्य विभीषणः तूर्णम् उच्चारणम् तत्र कार्यामास धर्म वेत् कञ्चकोष्ठणस्तत्र वित्र धर् धरपाणयः उच्चारयन्तस्तान् योधान् समन्तात् परिचक्रमुः वृक्षाणां वानराणां च राक्षसानां च सर्वशः वृन्दान्युत्सार्यमाणानि दूरं मुक्तः सुरन्ततः तेषामुत्सार्यमाणानां निःस्वनः सुमः वायुनोद्धूयमानस्य सागरस्यैव निःस्वनः उच्चार्यमाणान् तान् दृष्ट्वा समन्तायत सम्भ्रमन् दाक्षिण्यात्तमृशाचार्या मास राघवे संरम्भान् चाब्रवि द्रामे चक्षुषा प्रधाने विभीषणम् आप्राज्ञम् स्वपालम्बमिदं वचः किमर्थं महामनाधृत्य क्लिश्यते यम् त्वया जनः निवर्तयेनम् उद्वेगम् जनोऽयं स जनो न गृहाणि न वस्त्राणि न प्राकार स्थिरस्क्रिया नैदृशा राज्यसत्कारा वृत्तम् भावरणम् स्त्रियः व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे न क्रतो नो विवाहे वा दर्शनम् दूषते स्त्रियः सै चैव कृण च समन्विता दर्शने नास्ति दोषो स्यात् पे विशेषतः विसृज्य शिबिकाम् तस्मात् पभ्याम्मे वापर्पतु समीपे मम वैदेहीम् पश्यन् त्वेते वनोकसः एवम् उक्तत्वरामेण स विमर्शो विभीषणः रामस्योपानयत्सीताम् सन्निकर्षम् विनीतवत् ततो लक्ष्मणसुग्रीवौ हनुमान्श्च प्रभङ्गमः निशम्य वाक्यम् रामस्य बभूर्भूर्व्यथिता भृजम् कलत्र निरपेक्षैश्च इङ्गितैरस्य दारुणैः अप्रीतम् इव सीतायाम् तर्कयन्ति स्मराघवम् लज्जय त्र वलीयन्ति त्वेषु गात्रेषु मैथिली भर्तारं साभ्य वर्तते विस्मया च प्रशाच स्नेहाच्च प्रतिदेवता उदीक्षत मुखम् भर्तु सौम्यं सौम्यतरानना अथ समपनुदन्मनत्वमंसा सुरचिरमद्विष्य धृष्टमुदीक्ष्य वै प्रियस्य वदनमुदित पूर्णचन्द्रग्रान्तम् विमलशशाङ्क निभाननाथ आसीत् इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे चतुर्दशाधिकशतमसर्गः श्रीसीतारामचन्द्रार्पणमस्तु